धिकशततमः सर्गः जाबालेस्तु वचः श्रुत्वा रामः सत्यपराक्रमः उवाच परया सूक्त्या बुद्ध्याभिप्रतिपन्नया भवान् मे प्रियकामार्थम् वचनम् यदि होक्तवान् अकार्यम् मानम् न लभते सत्सु भिन्नचारित्रदर्शनः कुलीनमकुलीनम् वा वीरम् पुरुषमानिनम् चारित्रमेव व्याख्यातिशुचिम् वा यदि वा शुचिम् अनार्यस्त्वार्यसंस्थानः शौचाद्धीनस्तथा शुचिः लक्षण्यवदलक्षण्यो दुःशीलः शीलवानि वा अधर्मम् अभिपत्स्येषुभम् हित्वा क्रियाम् विधिविवर्जिताम् कश्चेतया नः पुरुषः कार्याकार्यविचक्षणः बहुमन्येतमाम् लोके दुर्वृत्तम् लोकदूषणम् कस्य यास्याम्यहम् वृत्तम् केन वा स्वर्गमाप्नुयाम् अनया वर्तमानोऽहम् वृत्त्याहीन प्रतिज्ञया लोकः कृत्स्नः यद्वृत्ताः सन्ति राजानस्तद्वृत्ताः सन्ति हि प्रजाः सत्यमेवानृशम्सम् च राजवृत्तम् सनातनम् तस्मात्सत्यात्मकम् राज्यम् सत्ये लोकः प्रतिष्ठितः ऋषयश्चैव देवाश्च सत्यमेव हिमे निरे सत्यवादी हि लोकेऽस्मिन् परम् गच्छति चाक्षयम् उद्विजन्ते यथा सर्पान्नरादमृतवादिनः धर्मः धर्मसत्य परोलोके मूलं सर्वस्य चोच्यते सत्यमेवेश्वरो लोके सत्ये धर्मः सत्यमूलानि सर्वाणि सत्यान्नास्ति परम् पदम् दत्तमिष्टम् हुतम् चैव तप्तानि च तपांसि च वेदाः सत्यप्रतिष्ठानास्तस्मात् सत्यपरो भवेत् एकः पालयते लोकमेकः एक पालयते कुलम् मज्जत्येको हि निरय एकः स्वर्गे महीयते सोऽहम् पितुर्निदेशम् तु किमर्थम् नानुपालये सत्यप्रतिश्रमः सत्यम् सत्येन नैव लोभान्न मोहाद्वा न च ज्ञानात्तमोऽन्वितः सेतुम् सत्यस्य भेत्स्यापि गुरोः सत्यप्रतिश्रवः असत्यसन्धस्य सतश्चलस्या स्थिरचेतसः नैव देवानपितरः प्रतीच्छन्तीति न श्रुतम् प्रत्यगात्ममिमम् धर्मम् सत्यम् भारः सत्पुरुषैश्चीर्णस्तदर्थमभिनन्द्यते क्षात्रम् धर्ममहम् त्यक्ष्येह्य धर्मम् धर्मसंहितम् क्षुद्रैर्विशंसैर्लुब्धैश्च सेवितम् पापकर्मभिः कायेन कुरुते पापम् मनसा सम्प्रधार्य तत् अनृतम् जिह्वया चाह त्रिविधम् कर्म पातकम् भूमिः सत्यम् समनुवर्तन्ते सत्यमेव भजेत्ततः श्रेष्ठम् ह्य नार्यमेव स्याद्यद्भवानवधार्य माम् आहयोक्तिकरैर्वाक्यैरिदम् भद्रम् कुरुष्वः कथम् ह्यहम् प्रतिज्ञाय वनवासमिमम् गुरोः भरतस्य करिष्यामि वचो हित्वा गुरोर्वचः स्थिरामया प्रतिज्ञाता प्रतिज्ञा गुरुसन्निधौ प्रहृष्टमानसा देवी कैकेयी चाभवत्तदा वनवासं वसन्नेव शुचिर्नियतभोजनः मूलपुष्पफलैः पुण्यैः पितृम् देवांश्च तर्पयन् सन्तुष्टपञ्च वर्गोऽहम् लोकयात्राम् प्रवाहये अकुह श्रद्दधानः प्राप्य कर्तव्यम् कर्म अग्निर्वायुश्च सोमश्च कर्मणाम् फलभागिनः शतम् क्रतोनामाहृत्य देवरात्रिदिवम् गतः तपाम् स्युग्राणि चास्थाय दिवम् प्राप्ता महर्षयः अमृष्यमाणः पुनरुग्रतेजानिशंयतन्नास्तिकवाक्यहेतुम् अथा ब्रवीत्तम् नृपतेस्तनूजो विगर्हमाणो वचनानि तस्य सत्यम् च धर्मम् च पराक्रमम् च भूतानुकम्पा प्रियवादिताम् च द्विजातिदेवातिथिपूजनम् च पन्थानमाहोस्त्रिदिवस्य सन्तः तेनैव माज्ञाय यथावदर्थमेकोदयम् सम्प्रति पद्यविप्राः धर्मम् चरन्तः सकलम् यथावत्काङ्क्षन्ति लोकागममप्रमत्ताः निन्दाम् यहम् कर्म कृतम् पितुस्तद्यस्त्वामगृह्णाद्विषमस्थ बुद्धिम् बुद्ध्या नयैवम् विधयाचरन्तम् सुरास्तिकम् धर्मपथादपेतम् यथा हि चोरः तथा हि बुद्धस्तथा गतम् नास्तिकमत्र विद्धि तस्माद्धियः शक्यतमः प्रजानाम् त्वत्तो जनाः पूर्वतरे द्विजाश्च शुभानि कर्माणि बहूनि चक्रुः श्रित्वा सदेवम् च परम् च लोकम् तस्माद् द्विजाः स्वस्ति कृतम् च धर्मे रताः सत्पुरुषैः समेतास्तेजस्विनो दान गुणप्रधानाः अहिंसकावीतमलाश्च लोके भवन्ति पूज्यामुनयः प्रधानाः इति ब्रुवन्तम् वचनम् सरोषम् रामम् महात्मानमदीनसत्त्वम् उवाच पथ्यम् पुनरास्तिकम् च सत्यम् वचः सानुनयम् च विप्रह न नास्तिकानाम् वचनम् ब्रवीम्यहम् न नास्तिकोऽहम् न च नास्ति किञ्चन समीक्ष्य कालम् पुनरास्तिको भवम् भवेयकाले पुनरेव नास्तिकः स चाप कालोयुपागत नई मैं नास्ति कवागुदीरता निवर्तना तव राणा प्रसादनाथ मयीर वाल्मीकिये श्रीमद्राणे वाक आदि का्योध्याकांडे नवाधिकत सर्ग